साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणां त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणां त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रियाभिषः स्वर्गं प्राप्ताश्चरन्ति देवैः सहगतव्यथाः अद्रिराजमहाशैलमुनिसंश्रयतीर्थवन् गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च तीर्थानि च सुपुण्यानि मै दृष्टान्यनेश